सहस्रशीर्षा पुरुष सहस्रा षत्सहस्रपात् स भूमिम् विश्वतो कृत्वा द्यातिषद्दशान्मूलम् पुरुष एवम् सर्वम् यजभूतम् यच्च भव्यम् उतामृतत्व शेषा ेनाधिरोहति एतावानस्य महिमातो जायाम् च पुरुष पादोऽस्य विश्वा भूतानि त्रिपादस्या मृतम् दिवि त्रिपादूत्वा उदे पुरुष पादो पुन ततो नशने अभि विराद जायत विश्वम् रग्रामसाशनानशनेरपि अस्माद्विरालजायत विराजोऽधिपुरुष सजातोऽत्यरिचत पश्चा भूमिमतो पुरा यत्पुरुषेणाविशा देवाय तन्वत वसन्तो अस्याजम् ग्रीष्मा इष्म शरद्दवि तम् यज्ञम् वर्हिषि रोक्षम् पुरुषम् जातमग्रत तेन देवा अयजन्त साध्या ऋषयश्चे तस्माद्यग्ना सर्वभूत संवृतम् पृषराजम् पशून्नाञ्चक्रे वायव्या नारण्या ग्राम्याचये तस्मा जग्ना सर्वभूत ऋतः सा मा जग्निरे चन्दासि जग्निरे दस्मा जस्मादजायत तस्मा तस्मा अजायत एकेशो गावो हजग्निरे दा, तस्मत् तस्मा जाता अजावय यत्पुरुषं यदातु क्व्यकल्पयन् मुखम् किमस्य को बाहु गावुरुपादाहुश्यते ब्राह्मणोऽस्य मुखमासि बाहू राजन्यकृता यदवेश पदव्याम् शूद्रो अजायत सन्द्रमा मनसो सा चक्षो सूर्योऽजायत मुकारेन्द्र शाग्निश्च प्राणायुराजायत नाव्यासिदन्तरिक्षम् शिष्णो जो समवर्तत पदव्याम् भूमिर्दश श्रोता तथा लोका अकल्पयन् सप्ताशासन् परिदयस्त्रि सप्त समित कृता देवा यद्यज्ञम् तन्मान अवदनम् पुरुषम् यज्ञेन यज्ञ मा यजन्त देवास्तानि कर्माणि प्रथमान्यासन् देहनाकम् महिमानसचन्द यत्र पूर्वे साध्या सन्ति देवा हरि